अथ द्वाविंशोऽध्यायः जरासन्ध उवाच न कदा वैरं कृतं युष्माभिरित्युत चिन्तयश्च न भवतां प्रति वै कृतं वासति कथम् अन्यध्वं मामनागसम् अरिं वै ब्रूत समय एष अथ धर्मोपघाताद्धीर्मनः समुपतप्यते यो नागसि प्रसजति क्षत्रियो हि संशयः अतो न्यथाचरन् लोके धर्मज्ञः सन्महारथः व्रजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च त्रैलोक्ये क्षत्रधर्मो हि श्रेयान्वै साधुचारिणाम् नान्यं धर्मं प्रशंसन्ति ये च धर्मविदो जनाः तस्य मेद्यस्थितस्येह स्वधर्मे नियतात्मनः च प्रमादादिव जल्पथा श्रीकृष्ण उवाच कुलकार्यं महाबाहो कश्चिदेकः कुलोद्वह वहते यस्तं नियोगाद्वयमभ्युद्यतास्त्वयि त्वया चोपहृता राजन् क्षत्रियालोकवासिनः तदा गः क्रूरमुत्पाद्य मन्यसे किमनागसम्